दुर्गासुक्तम् श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनो भुनक्तु सहवीर्यं परवावहै तेजस्विनावधितमस्तु मा विद्विषावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ जातवेदसे सुनुमाम सोमं मरातीयतो निदहाति वेद सना ना पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफले सुजृष्टां दुर्गां देवीगं शरणमहं प्रपद्ये सुतरसि नमः अग्ने पारयादव्यो पारयानव्योऽस्मान् स्वस्ति विरति दुर्गाणि विश्वाहा पुष्य पातुकाय तनजायशय्यो वैश्वानिनो दुर्गहा जातवेदस्य नापा दुरितातिपरषी अग्ने अद्रिवन्मनशागृणा नोऽस्माकं बोध्यपिता तनूना आं वितनाजितगं थमानमग्रमग्निगम् भुवे परमासदस्ता आत तना पर्षदति दुर्गाणि विश्वा सामर्देवोऽतिदुरितात्यग्निः प्रत्नो चिकविड्यो अध्वरे सुसनात्यभूता नभ्यस्य षस्यी त्वां च आग्नेतनुवं प्रियस्वास्मभ्यं च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तं तवे एन्द्रभेष्टो रणसंचरे नाकस्य प्रेष्टमभिसंवसानो वैष्टवीं लोक इहमादयन्ताम् ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदया आत ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ